संवत्सरकरोऽश्वत्थः कामचक्रो विभावसुः पुरुषश्चाश्वतो योगी व्यक्ताव्यक्तः सनातनः कालाध्यक्षः प्रजाध्यक्षो विश्वकर्मा तमोऽनुदः वरुणः सागरोऽंशुश्च जीमूतो जीवनोरिहा भूताश्रयो भूतपतिः सर्वलोक नमस्कृतः सृष्टा संवर्तको सर्वस्यादिरलोलुपः अनन्तः कपिलो भानुः कामदः सर्वतोमुखः जयो विशालो वरदः सर्वधातु मनस्सुपर्णो मनः सुपर्णो भूतादिशीघ्रदः प्राणधारकः धन्वन्तरिर्धूमकेतुरादिदेवोदिपे स्तुतः द्वादशात्मारविन्दाक्षः त्रिविष्टपम् देह कर्ता विश्वात्मा विश्वतो मुखः चराचरात्मा सूक्ष्मात्मा मैत्रेयः करुणान्वितः एतद्वैकीर्तनीयस्य सूर्यस्यामित तेजकः नामाष्टशत कञ्चेदम् प्रोक्तमेतत् स्वयम्भु वा सूर्योदये यः सु समाहितः पटेत् स पुत्र दारान्धन रत्न धृतिञ्च मेध्याञ्च स पुमान्